नमो नमः नमस्कारः नमो नमः नमो नमः ओगस्ट् महोदय कथमस्ति भवान् स्वागतं सर्वेषाम् आरम्भं कुर्मः अस्माकं गीतासोपानवर्गे आरम्भं कुर्मः अधुना अधुना प्रथमता तु प्रार्थनया आरम्भं कुर्मः वीणा भगिनी भवती वदति वा प्रार्थना राधा भगिनी कृपया आरम्भं करोति वा अहं बहिः अस्मि पञ्च पञ्चनिमिषे अनन्तरम् अस्तु पञ्चनिमिषानन्तरम् अस्तु तु अस्तु राधा भगिनी भवती वदति वा भगिनि सरस्वती नमस्तुभ्यं वरदेकामरूपिणि विद्यारम्भम् करिष्यामि सिद्धिर्भवतु मे सदा शान्ताकारम्बुजगशयनम् पद्मनाभम् सुरेशम् विश्वाधारम् गगनसदृशम् मेघवर्णम् शुभाङ्गम् लक्ष्मीकान्तम् कमलनयनम् योगिभिर्ध्यानगम्यम् वन्दे विष्णुम् भवभयहरम् सर्वलोकैकनाथम् ओम् हरि ओम् धन्यवादाः धन्यवादः अस्तु अद्य दिनस्य अस्माकं विषयः अस्ति तवतु प्रत्ययः तव तु प्रत्ययः स्क्रीन् शेर् कृत्वा दर्शयामि तवतु इति कथं तत् तवतु प्रत्यय पश्यन्तु अत्र अत्र नामकरणं भवति एवं स्क्रीन् दृश्यते खलु दृश्यते स्तव तु क त, -आ -आ त, अ, अ, व, उ, लिखामः अत्र क ककार अनन्तरं तकार अनन्तरम् अकार इति भवति क्त अनन्तरमस्ति वकार अकार तकार उकार अस्तु तवतु तव तु प्रत्यय तथा एकं सूत्रमस्ति त तव तु निष्ठा क्त तवतु तव प्रते, तवतु प्रते। इती। इती तु निष्ठा तप्रत्यय तव तु प्रत्यय व्याकरणदृष्ट्या द्वयोः नामकरणम् अस्ति निष्ठा इति व्याकरणांश अधुना व्याकरणदृष्ट्या पठनं मास्तु परन्तु तवतुनिष्ठा तव तु निष्ठा इति एकं सूत्रं तप्रत्ययनिष्ठा संज्ञकः तव तु प्रत्यय अपि निष्ठा इति संज्ञा तवतु, तवतु, तवतु, प्रत्ये, तवतु प्रत्ये, तु अपि अधुना तव प्रत्यय भेदः कः तत्र त प्रत्यय तवतु तु प्रत्यय अत्र पश्यतु तव प्रत्यय कर्त्रार्थे अस्ति कर्तरि प्रत्यय कर्तारं सूचयति कयोगत्त योग अयोगव योग अ, अयोग तयोग ऊन् अत्र किं भवति ककार अपगच्छति ककार आदौ ककार अस्ति तत् अपगच्छति उकार अपि अपगच्छति अधुना तेषा वर्णाः के कोऽपि वदतु भारतमहोदय भवान् वदति वा के वर्णाः शेषवर्णाः इति तत् तबतु इति अस्ति मूलतः तत्र प्रथमः आदौ एकः ककार का अपगच्छति अन्तिमे उकार यत् अस्ति तदपि अपगच्छति अधुना अस्माकं पुरतः तकार अकार वकार अकार तक् इति अस्ति इत्युक्ते के वर्णाः शेषवर्णः इति वक्तुं शक्नुमः न न अत्र फलके तकारदृश्यते अकारदृश्यते वकारदृश्यते अकारदृश्यते तकारदृश्यते एते आ, सर्वे वर्णाः सन्ति Mm -hmm. इत्युक्ते किं सकार अकार इत्युक्ते तदिक अवतु व अधिक अवत् इति अस्तु मूलतः अहं प्रश्नः अत्र कथमस्ति पश्यन्तु मूलतः तवतु इति प्रत्ययस्य नामकरणं परन्तु यदा वाक्ये तस्य प्रत्ययस्य योजनां कुर्मः तदा तवत् एव अवशिष्यते अस्तु भरतमहोदय oh, yeah. स्पष्टमस्ति yeah. वाक्ये यदा योजनां कुर्मः तदा किं भवति तवत् एव अवशिष्यते किमर्थम् oh. अत्र ककार अस्ति तत् अपगच्छति अन्तिमे उकार अस्ति तत् अपगच्छति उकार अकार अपगच्छति अधः त, त इत्युक्ते तवत् तव एव अवशिष्यते हा इत्युक्ते यदा वदामि तव तु प्रत्ययस्य योजनां योजना करणीया तव तु प्रत्ययस्य योजना करणीया इत्युक्ते तत्र तवत् एतस्य योजना योजना कुर्मः एव हा तव तु प्रत्यय अवशिष्टरूपेण तवत् एव अधुना स्पष्टमस्ति भारतमहोदय अधुना अधुना किमस्ति पश्यन्तु प्रथमतः तु योजनायाः विषये अस्माकं पुरतः लिख इति धात, लिख, लिख, अनन्तरं तवत् लिख अनन्तरं तवत् अत्र किं भवति तवतु तु प्रत्यय यदा योजयामः तदा केषुचित् स्थलेषु इकारस्य आगमः भवति इकार आगमः व्याकरणदृष्ट्या इकार आगमः इत्युक्ते किम् इठ् आगमः इडागमः इठ् आगमः इठ् आगमः तकार अकार मिलित्वा ट तृतीयवर्ण हा इडागमः इति सौ हा व्याकरणदृष्ट्या इडागमः भवति इत्युक्ते किं भवति प्रत्यय धातु द्वयोः मदे इठ् आगमः भवति तदपि लिखामः इठ् आगमः भूत्वा किं भवेत् इति अहं किम् अत्र प्रत्यय धातो द्वयोः मध्ये इठ् आगमः भवति इत्युक्ते मम धातुः अस्ति लिख् अनन्तरं प्रत्ययस्य योजना भवेत तवत् हा तवतु प्रत्यय तवत् इति एतस्य इत योजना लिख धातु प्रत्यय द्वयोः मध्ये इठ् आगमः भवति इडागमः ट जस्व भूत्वा इडागमः मूलतः इठ् एतस्य आगम, अत्र इठ् आगमे अपि टकार अपगच्छति इव अवशिष्यते अधुना भारतमहोदय भवानेव वदतु किम भवति लिख योग इ योग तवत् इत्युक्ते किम् उत्तमं लि ही त वत् इति प्रातिपदिकं सिद्ध्यति अधुना भवान वदतु पठ योग इ योग तवत् किं भवति भरतमहोदयनिमिष uh, uh, हा पठ् हा एकनिमिषे लिखामि अत्र चिन्तामस् पठ पठ योग ई योगतवत् किं भवति पठितवत् सम्यक् बहु सम्यक् पठितवत् हा इति प्रातिपदिकम् लिखितवत् पठितवत् इति प्रातिपदिकम् अधुना प्रातिपदिकं लिखितवत् वा भवेत् चेत् तस्य स्त्रीलिङ्गिरूपं पुल्लिङ्गिरूपं नपुंसकलिङ्गिरूपं भवति किं किं भवति उदाहरणार्थं पठितवत् इति प्रातिपदिकम् पठ योग ईयोग तवत् पठितवत् तदा पुल्लिङ्गी भवती पठितवान् पुल्लिङ्गीरूपं किं भवति पठितवान् यथा उदाहरणार्थं भवत इति प्रातिपदिकमस्ति चेत् भवान् पुल्लिङ्गीरूपम् अधुना चिन्तयतु स्त्रीलिङ्गिरूपं किं भवितुमर्हति पठितवत् इति वदामः चेत् श्रीलिङ्गे किं भवितुम् अर्हति चिन्तयति वा कोऽपि आम् पठितवती इति श्रीलिङ्गिरूपं पठितवती पठितवती इति श्रीलिङ्गिरूपं पठितवान् इति पुल्लिङ्गिरूपं तथैव भारतमहोदय भवानेव लिखितवत् इति प्रातिपदिकमस्ति चेत् श्रीलिङ्गिपुलिङ्गिरूपं कथं भवति वदति वा लिखितवत् लिखितवत् हा बहु सम्यक् लिखितवान् लिखितवती लिखितवान् लिखितवती इति प्रातिपदिकम् अस्तु किञ्चित् अग्रे सम्यक् पठितवती पठितवान् पश्यामः पठितवत् इति प्रातिपदिकं पठितवती इति श्रीलिङ्गिरूपं पठितवद्वान् इति पुल्लिङ्गिरूपम् अधुना पठितवती इति वा पठितवान् शब्दस्य योजनां कृत्वा कर्तृपदस्य साहाय्येन वाक्यरचना कथं भवेत् कोऽपि वदति वा पठितवान् पठितवती अस्माकं किं करणीयम् वाक्यरचना के केन कर्तृपदस्य साहाय्येन अस्माकं पुरतः किमस्ति पठितवती इति सीलिङ्गिपदम् पठितवान् इति पुल्लिङ्गिपदम् अधुना कर्ता कर्तृपदं योजयतु राधा भगिनी वदति वा आम् भगिनी बालकः पठितवान् आम् बालकः पठितवान् आ, सीता पठितवती उत्तमं सीता पठितवती बहु सम्यक् सीता पठितवती बालकः पठितवान् अधुना राधा भगिनी भवती अत्र बालकः पठितवान् इति उक्तवती हा, हा सीता पठितवती अधुना भवती एव वदतु कस्मिन् काले भवत्याः एषा योजना कस्मिन् काले अस्ति भूतकाले इत्युक्ते तव तु भूतकाल भूतकालसूचक अस्ति भूतकाल अस्ति अधुना कर्ता पठितवान् इति तत्र पठितवान् अत्र भवती बालकशब्दस्य पुल्लिङ्गिशब्दस्य एव योजनां कृतवती पठितवती श्रीलिङ्गिशब्दस्य एव योजनां कृतवती इत्युक्ते बालकः पठितवान् यदा अहं वदामि राधा भगिनी तत्र बालिका इति उपयोजतु वाक्यरचनां करोतु भवती किं वदति बालकः पठितवान् बालिका उपयोजतु किं वदति बालिका पठितवती सम्यक् बालकः यदा बालिका भवेत् कर्तुपदे यदा तत्र परिवर्तनं भवेत् चेत् क्रियापदे अपि परिवर्तनं भवति इत्युक्ते तव तु कर्ता सूचयति कर्तारं प्रतिबोधति कर्ता सूचयति भूतकाले अस्ति अस्तु नम्बर् yes. uh, um. भूतकाले अस्ति पायिण्ट् नम्बर् वन् कर्तारं सूचयति पश्यन्तु सर्वे पश्यतु नथिंग न्यू ओब य कर्ता कर्ता हाँ तत्म किखितवती भू भु, भूतकाल, भू भु। हाँ अः राधा भगि त पठ इति धातुं धातुं स्वीकृत्य तत् भरतमहोदयेन तत्र पठितवान् अनन्तरं लिख इति धातु लिखितवती वा लिखितवान् एतानि सर्वाणि रूपाणि भरतमहोदय साधितवान् अधुना mm. इत्युक्ते मूलतः मूलतः यदा अहं वदामि तत्र प्रकृतिः अस्ति एवं खलु हा mm -hmm. प्रकृतिः yeah. तत्र प्र प्रकृतिरु प्रत्यय प्रकृति प्रकृतिरूपेण कस्य योजना अत्र एकवारं पठ एकवारं लिख अधुना यदा गम् इति वदामि गमधातु अस्ति चेत् गतवान् गतवती भवती अधुना तदा प्रकृतिरूपेण किम् अस्ति अत्र प्रत्ययरूपेण तु तवतु अस्ति हा प्रत्ययरूपेण तु तवतु परन्तु प्रकृतिरूपेण तत्र किम् अस्ति वट् इस् दि रा मटेरियल् बै यूसिङ्ग् विच् प्रत्ययस्य योजनेन तव तु प्रत्ययान्तरूपाणि वयं साधितानि क्रियापदं न क्रियापदं स तु क्रियापद भूतकाल क्रियापद अर्थे वस्तुता क्रियापदिति न परन्तु mm. भूतकालं सूचयति यत् पदं mm. प्रत्ययस्य आदौ लिख पठ धाव गम mm. इत्युक्ते किं अस्तु तव तु यदा अहं वदामि वीणा राधा भगिनी राम् इति प्रातिपदिकं तव तु प्रत्यान्तरूपं साधयतु तत् न भवति खलु राम् इति प्रातिपदिकं कथं भवति तव तु प्रत्यान्तरूपम् इत्युक्ते तत्र धातु एव प्रकृतिरूपेण प्रकृतिप्रत्यय सुप्रत्यये यदा सुप्रत्यये सुबन्त तत् प्रातिपदिकरूपेण प्रकृतिः भवेत् तत्र धातु प्रकृति मा भवेत् इत्युक्ते प्रकृतिः वट् इस् दि रा मटेरियल् तत् धातु एव भवेत् अस्तु प्रथमः अन्य कर्तारं प्रतिबोधयति द्वितीयः भूतकालवाचिक अस्ति तृतीयः अस्ति धातु साधित अस्ति धातुभ्य विहितः एव अस्ति कभूधा इतावत पर्यन्तं वयम् आगतवन्तः कर्तारं प्रति बोधनं भूतकाल भूतकालसूचकं धातुभ्यः एव धातुसाधित एव हा अधुना चतुर्थः हा अधुना लिसन् केर्फलि यदा अहं वदामि राधाभगिनी पठितवती आसीत् तत् मम दोषः वा ट्व इति भासते खलु तथैव अहम् उक्तवती आसम् तदापि भवती एवं वदति रिपीटिङ्ग् ट्वस् इति भवति तत् भासते तत भासते वस्तुतः वस्तुतः वस्तु mm. पश्यन्तु उक्तवती आसीत् mm. वा पठितवती आसीत् mm. एतस्य योजना mm. वयं सर्वे जानीमः आसीदिति क्रियापदम् uh -huh. तत्कम तत्कती वेन किमर्थ आसीति क्रियापद् दिवर योजना कृता अश्यते अस्मक चिंतन भाषा तत् बहु स परुतुत तत्वती पढ़ पठित गतवांव सर्वा पदा विशेषा सी Okay. राधा के राधाभगिनी कीदृशी राधाभगिनी पठितवती पिता mm. उक्तवती इत्युक्ते mm. तत् विशेषण विशेषणपदेन रूपेन एतेषां योजनां भवति अतः वस्तुतः वस्तुतः सम्भाषणे तु तत कथायामपि वयं पश्यामः तत् उक्तवती पठितवती गतवान् गतवती एवं सर्वम् अस्ति परं वस्तुतः एतानि सर्वाणि विशेषणपदानि सन्ति oh. महत्त्वपूर्णः विषयः इत्युक्ते अस्माकं मनसि अस्ति गतवती गतवान् इति क्रियापदं तत् क्रियापदस्य स्थाने भूतकाल यदा दर्शिष्यामः तदा भूतकालस्य बोधनं तत् तेन तु भवति तत्तु सत्यम् पन्तु वस्तुतः एते एतानि पदानि विशेषणानि सन्ति न तु क्रियापदानि अतः अतः ये जनाः व्याकरणदृष्ट्या ये जनाः पठन्ति ते जनाः वदन्ति एवम् अहं वदन्ती आसम् अहं गतवती एवं सर्वम् इति व्याकरणदृष्ट्या सम्यक् भवति भूतकालार्थम् किम तव प्रतयांशणपा सी अतः अंत अतिमत पशनु अं साधित कू धावि तव तो प्रत्याण कू धा कर्तरी भूतकालवाची धातु साधित विशेषणपदानि hmm. कर्तरी भूतकालवाची धातुसाधि धातुसाधि अटेच् टु धातु धातुभ्यः विहितं धातुसाधित विशेषणपदानि तव तु प्रत्ययान्तरूपाणि अस्माकं पुस्तके तत्र अस्ति तद्युधिष्ठिरनगरं गतवान् दुर्योधन अपि नगरं गतवान् तत्तु योग्यमेव mm. परन्तु व्याकरणसृष्ट्या इति विषयः कबूधावि इति विषयः मनसि भवेत् सर्वेषाम् क्रियापदानि mm. इति न परन्तु कर्तये भूतकालवाचिकधातुसाधितविशेषणपदानि सन्ति सर्वेषां मनसि स्पष्टताम् अस्ति इति मन्ये वा पुनः एकवारं वदामि स्पष्टता अस्ति वा स्पष्टमस्ति भगिनी स्पष्टमस्ति को धावी इति तव तु प्रत्ययान्तरूपाणि स्त्रीलिङ्गे अपि पुल्लिङ्गे अपि नपुंसकलिङ्गे अपि अस्ति नपुंसकलिङ्गिरूपाणि वयम् अनन्तरं पश्यामः अद्यदिने श्रीलिङ्गि पुल्लिङ्गी एव तदेव अस्माकं विषयः परन्तु प्रातिपदिकम् उपयुज्य तत्र श्रीलिङ्गि पुल्लिङ्गी नपुसलिङ्गि रूपाणि वयं साधितुं शक्नुमः अस्तु योग्यं धन्यवादः राधा भगिनी अधुना रमा भगिनी भवती उक्तु वक्तुं शक्नोति वा अधुना राधाभगिनी उक्तवती अधुना अहं इति वद सम्यक् न पुनः पुनः वदतु भगिनी एकवारं भवती राधाभगिनी उक्तवती बालकः पठितवान् हा बालकः एतस्य स्थाने यदा बालिका अस्ति चेत् सा उक्तवती बालिका पठितवती अधुना मम प्रश्नः भवत्याः कृते बालकः पठितवान. अधुना अत्र अहमिच्छामि बालकाः बालिकाः तदा आं भगिनी बालिकाः पठितवन्तः बाल् बालकाः पठितवन्तः पुनः एकवारं वदतु बालिकाः पठितवन्तः बहु बहुवचनं बालकाः पठितवन्तः परिणामं न भवति अस्तु भगिनि योग्यं बालकाः पठितवन्तः बालिका बालिकाः पठितवन्तः समानमेव भव एकवारं न्यूट् करोतु अहं वदामि वदामि पश्यन्तु यथा बालकः पठितवान् तस्य भवती बालि बालकाः पठितवन्तः बालिका पठितवती किं भवितुमर्हति अत्र पश्यतु भगिनी पठितवती इति एकवचनान्तरूपं नदी एव चलति नदी दीर्घ इ यदा नदीनद्यौ नद्यः इति भवति तदा पठितवती पठितवत्यः अस्तु पठितवत्यः पठित भवान् पठितौ इत्युक्ते पठितवान् पठितवान् पठितवन्तः एकवचनं बहुवचनं पठितवती पठितवत्य पठितवत्यः अस्तु भोके अधुना भवती स्वीकृत्य वदतु लिखितवान् लिखितवान् बहुवचनं रूपम् लिखितवान् लिखित लिखितवन्तः लिखितवन् लिखितवत्यः वाक्य वाक्यतवान् रमा पाठं रमा रमा बहुवचनरूपं एकवचनान्त वाक्य प्रथमम् एकवचनान्तम् अनन्तरं द्विवचनान्तं बहुवचनान्तं तत् रमे पाठान् पठितवत्यः रमाः पठितवत्यः रमाः रमा पठितवती पठितवान् बालकाः पठितवन्तः तावतु लिखितवान् लिखितवान् लिखितवान् रामाः रामाः पाठं लिखितवन्तः रामः पाठं किं रामः पाठं लिखितवान् लिखितवान् रामाः पाठ रामाः पाठान् लिखितवान् लिखितवन्तः त्रिलिङ्गि त्रिलिङ्गि त्रिलिङ्गे रमा पाठं लिखितवती रमाः पाठां लिखितवत्यः योग्यं योग्योग्यम् अधुना वीणा भगिनी वक्तुं शक्नोति वा हा भगिनी शक्नोमि अधुना खादितवती इति प्रातिपदिकं स्वीकरोतु भगिनी वाक्यद्वयं <laughs> पुल्लिङ्गिकृते वाक्यद्वयं स्त्रीलिङ्गिरूपस्य एकवचनान्तं बहुवचनान्तम् ओके अस्तु भगिनी प्रयत्नं करिष्यामि भगिनि वदतु खादितवत् हा लक्ष्मणः खादितवान् योग्यं लक्ष्मणाः खादितवन्तः बहुवचनम् अत्र स्त्रीलिङ्गि हा अत्र स्त्रीलिङ्गी लता पठितवती पठितवती अय सारि खादितवती आम् आम् लता खादितवत्यः आम् सत्यं योग्यं योग्यं सम्यक् सम्यक् अस्तु धन्यवादः धन्यवादः धन्य अधुना अगस्ट् महोदय भवान् वक्तुं शक्नोति वा श्रुतवत् श्रुतवत, लिसन् श्रुधातु तस्य तव तु श्रुतवत् अधुना भवान् पुल्लिङ्गि एकवचनान्तं बहुवचनान्तं द्विलिङ्गि क्षम्यतां स्त्रीलिङ्गि एकवचनान्तं बहुवचनान्तं वदति वा श्रुतवत् इति प्रातिपदिकम् न्तः श्रुतवन्तः प्रथमतः तु एकवचनान्तं वदतु पुल्लिङ्गे एकवचनान्तं श्रुतवान् अधुना वाक्यं वदतु श्रुतवन्तः श्रुतवान् रामः श्रुतवान् अधुना श्रुतवन्तः कृते वाक्यं वदतु श्रुतवान् इति एकवचनान्तरूपम् श्रुतवन्तः इति बहुवचनान्तरूपम् यदा भक्तः श्रुतवान् भक्ताः श्रुतवन्तः एवं खलु Hmm? महोदय श्रुतवान् श्रुतवन्तः त्रीलिङ्गि किं भवति एकवचनान्तम् सीता hmm? ah, बहु सम्यक् सीता श्रुतवती योग्यम् बाहु, बाहु बहु सम्यक् बहु सम्यक् श्रुतवत्यः उत्तमम् उत्तमम् अधुना वयं तत्तालिका तु मया कृता परन्तु मौखिकीदृष्ट्या बहु सम्यक्रीत्या भवान् सर्वे उक्तवन्तः अधुना अहं तत् तालिकां प्रति गच्छामः परन्तु एतत् बहु Hmm. पश्यन्तु अत्र तालिका अस्ति सर्व परन्तु भू नपुंसकलिङ्गं प्रति न गच्छामः परन्तु अत्र पश्यन्तु सर्वे स्क्रीन् दृश्यते खलु तालिका दृश्यते सर्वेषां कृते भगिनी दृश्यते अस्तु श्यामलाभगिनी भवती पठति वा एकवारम् श्यामलाभगिनी अहं पठामि भगिनि हा पठतु प्रत्ययः पुल्लिङ्गः स्त्रीलिङ्गः उक्तवत् भूतवान् भूतवती पठितवान् पठितवती पठ प्लस्वतु पठ अधिक एवं पठतु सम्यक् रीत्या पठितवती एवं पठतु पठितवान् पठितवती गतवती गतवान् गतवती नीतवती नीतवान् नीतवती Hmm. पीतवतु पीतवान् पीतवती।, पीतवान, पीतवती पा हाँ. हाँ? पा अधिकं भगिनि पा, पा अधिकं तवतु पीतवान् पीतवती पा इस् टु ड्रिङ्क् खलु पिबति जलं पिबामि इति हा पा अधिकतवतु मूलधातुरूपेण पा इति अस्ति तत् सम्यक् अस्माभिः तत् उच्चारणं करणीयं पा अधिकतवतु पितवान् पितवती अग्रिमे पठतु अधिकम् इत्तवतु अधिगतवतु दत्तवान् अधुना धन्यवादः एकनिमिषं किञ्चित् वदामि अत्र हा यथा वयं दृष्टवन्तः कू धामि कर्मणि भूतकाल भूतकाले कस्मिन् लकारे वाक्यरचना अस्माकं कृते लङ् लकारे अतः लङ् लकार तवतु प्रत्यय द्वयोः मध्ये कः सम्बन्ध तत् वाक्यरचनाम् अत्र दृश्यते हा स्त्रीलिङ्गी कथं भवति पुल्लिङ्गी के भवति इति हा पठतु अधुना श्यामला भगिनी पठतु स्त्रीलिङ्ग विद्यालयम् अगच्छत् इक्तवत् बालिका विद्यालयं गतवती लङ् छात्रा अपठत् इक्तवत् छात्रा पठितवती लङ् बालिकाः विद्यालयम् अगच्छन्तु बालिकाः विद्यालयं गतवत्यः लङ् छात्राः अपठन्तु छात्राः पठितवत्यः पुल्लिङ्गे श्रील्लिङ्गे अधुना पुल्लिङ्गे हा धन्यवादः श्यामला भगिनी पर्याप्तम् हां, भगिनि धन्यवादः धन्यवादः आगस्ट् महोदये भवान् पठति वा पुल्लिङ्गस्य कृते पुल्लिङ्ग् बालकः विद्यालयम् अगच्छत् mm. तव बालकः विद्यालयं गतवान् mm -hmm. लं छात्रः पाठम् अपठत् mm -hmm. तव छात्रः पाठम् पठितवान् mm -hmm. लं बालकाः विद्यालयम् अगच्छन् बालकाः विद्यालयं गतवन्तः mm. लङ् छात्राः पाठम् अपठन् तव तु छात्राः पाठम् पठितवन्तः स्क्रीन् दृश्यते वा स्क्रीन् दृश्यते दृश्यते भगिनि अत्र वयं किं कृतवन्तः लङ् लकार तवतु प्रत्यय लङ्लकार तवतु प्रत्यय लङ् लकार तवतु प्रत्ययः तव पुल्लिङ्गि तथैव स्त्रीलिङ्गि अधुना इतोपि किञ्चित् अग्रेसरेम बालिका हा अगस्टमहोदय धन्यवादः धन्यवादः बालिका बालिकाविद्यालयम् अगच्छत् भारतमहोदय यदा लङ् लकारे बालिकाविद्यालयम् अगच्छत् इति अस्ति तदा वर्तमानकाले लट् लकारे किं भवितुमर्हति अधुना तव तु प्रत्ययस्य चिन्ता मास्तु वि, बालिका वि, विद्यालयं गच्छति हा बहु सम्यक् इत्युक्ते वाक्यत्रयं बालिकाविद्यालयं गच्छति लट्लकार बालिकाविद्यालयम् अगच्छत् लङ्लकार बालिकाविद्यालयं गतवती तव प्रत्यय बहु सम्यक् अधुना पश्यन्तु लङ् लङ्लकार छात्रा अपठत् तत्र किं भवितुमर्हति महोदय छात्रा छात्रा पठति छात्र पठती नत्यम सत्यम श्री बहुत सम्य छात्र पठती छात्र अपठत छात्र पठितवती तृतीय कौत बालिका लंगलकार बालिका बालिका विद्यालय अगछन लट्ल बालिका विद्यालय ग बहु सम्यक् बहु सम्यक् बालिकाः विद्यालयं गच्छन्ति लट्लकार बालिकाः विद्यालयम् अगच्छन् लङ्लकार बालिकाः विद्यालयं गतवत्यः तव तु प्रत्ययं बहु सम्यक् अग्रिमे करोतु लङ्लकार छात्राः अपठ अपठन् छात्राः पठति छात्राः पठन्ति सम्यक् छात्राः पठन्ति छात्राः अपठन् छात्राः पठितवत्यः सम्यक् अस्ति अग्रिमे अपि करोतु पुल्लिङ्गे कथं भवति लट्लकार बालकः विद्यालयम् अगच्छत् ओके बालकः विद्यालयं गच्छति रैट् सम्यक् बहु सम्यक् अग्रिमे छात्रः पाठम् अपठत् छात्रः पाठम् अपठति उत्तमम् अग्रिमे बालकाः विद्यालयम् अगच्छन् बालकाः विद्यालयं गच्छति गच्छन्ति गच्छन्ति इति अस्ति छात्राः पाठम् अपठन् छात्राः पाठं पठन्ति सम्यक् सम्यक् उत्तममस्ति धन्यवादः धन्यवादः अधुना एकवारं पुस्तकं प्रति गच्छामः अत्र पश्यन्तु वयम् अत्र स्मः तत् वर्तमानकाले भूतकाले भूतकाले तत्र लङ्लकार इति न तव तु प्रत्ययस्य योजनां कृत्वा वाक्यानि तत्र सन्ति एकवारं पठामः अत्र राधा राधाभगिनी भवती आरम्भं करोति वा आं भगिनि पठत अवगच्छत च वर्तमानकाले भूतकाले युधिष्ठिरः नगरं गच्छति युधिष्ठिर नगरं गतवान् hmm. दुर्योधनः अपि नगरं गच्छति hmm. दुर्योधनः अपि नगरं गतवान् hmm. तौ सर्वान् नगरजनान् पश्यतः hmm. तौ सर्वान् नगरजनान् दृष्टवन्तौ अत्र किमभवत् पश्यन्तु गति प्रथमपुरवचन द्विवन बहुवचन अतः तौद्विवचना सहा तौ ते तौद्विवचना नगर जश्यत अं भवे तौद कर्तुपदम सर्वान्गर जथव दृष्टवा दृष्टव दृष्ट द्वितीयान्तपदं न द्विवचनान्तपदं दृष्टवन्तौ यथा भवान भवन्तौ भवन्तः दृष्टवान् दृष्टवन्तौ दृष्टवन्तः एतस्य पुनः एकवारं तत् पुनरावर्तनं भवेत् अग्रिमे वर्गे परन्तु एकवारं पठामः अग्रे अपि एकेहः अस्ति अत्र तौ सर्वान् नगरजनान् पश्यन्तौ इति भवत्यो भव भावत्य। न अत्र किमस्ति सम्यक् सम्यक् पृष्टवती भवती वदामि अत्र किमस्ति मूलतः दृश् इति धातु दृश् इति धातु तस्य लट्लकारे केवल लट्लकारे अश्यम् इति भवति अतः तत्र पश्यति इति रूपं लट् लकारे परन्तु दृष्टवान् यत् तव तु प्रत्ययान्तलूपं लट् लकारे अस्ति वा लट् रूपं न भगिनी अतः तत्र पश्य इति लट् आदेश अनन्तरम् लङ् लकारे अपि अपश्यत् पश्यतु लोट् लकारे अपि भवति पश्येत् विधिलिङ्ग् लकारे अपि भवति परन्तु त प्रत्यय तव तु प्रत्यय लकारे अस्ति वा न अतः तत्र दृश् दुष, रूपं निष्पद्यते दृष् धातु तव तत्र एकं शकारस्य स्थाने शकार आगच्छति अनन्तरम् इति श्रुत्वा सन्धि भूत्वा दृष्ट इति रूपं परन्तु मूलतः तद् दृश् एव तिष्ठति तव तु प्रत्ययन्त यथा अहम् उक्तवती तत्र प्रकृतिरूपेण मूलधातुः एव अस्ति तत्र पश्यतु भगिनी पा धातुः कृते अपि वयं वक्तुं शक्नुमः तत्र पा पिबति इति अस्ति खलु अहं पिबामि सः पिबति इति अस्ति परन्तु तत्र वयं प्रष्ट खलु पितवान इति अस्ति तत्र पिबनं गच्छति हा अत्र वयं पठितवन्तः खलो प्रथमे तत्र पश्यन्तु पा अधिकतवतु पितवान् पितवती इति भवति तत्र पिबितवती इति अस्ति वा न लङ् लकारे लङ् ले एव तत्र पिबति इति रूपं दृश्यधातोः कृते पश्यति अपश्यत् हा एवं सर्वं लठ् लङ् लोट् बिदिलिङ्ग् परन्तु त प्रत्ययस्य योजना वा तवतु तु प्रत्ययस्य योजना वा कर्मणि प्रयोग तेन दृश्यते इति तेन पश्यतेन mm. दृश्यते तत्र मूलधातोः mm. रूपं पुनः एकवारम् आगच्छति अस्तु भगिनी बहु सम्यक् आम् सम्यक् अस्तु अग्रिमे पठामः वा तौ सर्वे सर्वे सर्वे मिलितः तौ सर्वे मिलितवन्तौ तत्र सर्वैः मिलतः सर्वैः ओके तौ सर्वैः मिलितः तौ सर्वैः मिलितवन्तौ युधिष्ठिरः एकमपि दुर्जनं दुर्जनम् न प्राप्नोति युधिष्ठिरः एकमपि दुर्जनं न प्राप्तवान् दुर्योधनः एकमपि सज्जन सज्जनम् दुर्योधनः एकमपि सज्जनं न प्राप्तवान् यदा दृष्टिः अस्ति तथा दर्शनम् यथा दृष्टिः आसीत् तथा दर्शनं hmm. एका तत्र एका कथा एकवारं तत् नगरे भ्रमणं कृतवन्तः तदा hmm. सज्जनानां चयनं करणीयम् इति अस्ति hmm. भगवान् श्रीकृष्णः उपदेशति आदेशति तत् सज्जनानां चयनं करोति करोतु इति दुर्योधनः उक्तवान् अहमेकमपि सज्जनं न प्राप्नोमि hmm. परन्तु किमुक्तवान् एकमपि दुर्जनं न प्राप्तवान् इत्युक्ते यथा दृष्टिः तथा दर्शनम् इति कथां प्रति गच्छामः एकवारं पठनं पठ पठनं समापयामः एतत् अनन्तरं हा धन्यवाद राधा भगिनी रमा भगिनी अग्रिमे पठति वा अस्तु भगिनि गीता भी अपि आगच्छति बहिनी अस्तु अस्तु अहं पृच्छामि यथा सैरन् सैरन्ध्री सेविका अस्ति सैरन्ध्री सेविका आसीत् सा राज्ञी सेव सेवते hmm. सा राज्ञी सेवितवती hmm. सा केश सा सा केशप्रसादनं करोति सा hmm. कृतवती hmm. सा प्रतिफलं न इच्छति सा प्रतिफलं न इष्टवती hmm. सा hmm. नम्रतया सा नम्रतयागीतं गीतवती युवां सर्वदा सत्यं वदत वदतः युवाम् सर्वदा सत्यम् उक्तवन्तौ यूयं भजत् द्वे यूयम् ुञ्जे अहं अत्र पश्यन्तु अन्तिमे तत्र भज धातु तस्य आत्मनेपदीरूपं भज ्वे इति परन्तु भजधातु तवतु तु प्रत्यान्तरूपं भक्तवन्त भक्तवान् इति भवति तद्ध अपगच्छति सन्धिनियमाः सन्ति तस्मात् कारणात् तत्र जस्थाने क भूत्वा भक्तवन्तः भवति तथैव भुजधातु भुजधातोः कृते लट्लकारे भुञ्जे आत्मनेपदिरूपं परन्तु तत्र अत्र किं भवति भुज जस्थाने क आगच्छति भुक्तवान् भवति तत्र परिवर्तनं धन्यवादः रमा भगिनी अग्रिमे कथां प्रति गच्छामः अस्तु अत्र हा हा एवं वा कथाद्वयं मम समीपे अस्ति तु एवं कुर्मः अस्तु गीताभगिनी गी भवती पठति वा था, पठतु यथा चिन्तनं तथा फलं यथा चिन्तनं तथा फलं पूर्वं वयं दृष्टवन्तः खलु यथा दृष्टिः तथा दर्शनं यथा दृष्टिः तथा दर्शनं तथैव यथा चिन्तनं तथा फलं चिन्तने किमस्ति तादृशं फलं प्राप्यते इति हा पठतु भगिनि पूर्वं कश्चन वृद्धः वसति स्म तस्य hmm. उभौ पुत्रौ वृद्धस्य विशाला कृषिभूमिः अस्ति प्रतिदिनम् आसीत् प्रतिदिनं श्रमं कुर्वन् सः पुत्रा सः सुखेन जीवित् जीवति स्म सो ओल्ड् मेन् अग्रिमे अग्रिमे अपि पठतु अथ कदाचित् अनन्तरं वदतु ज्ञातवान् यत् जीव, जीविष्यामि इति तस्य उभौ पुत्रौ तयोः पुत्रयोः एकः अलसः अपरः श्रमजीवी पुत्रयोः एतत् एतं स्वभावं ज्ञातवान् वृद्धः अचिन्तयत् मम मरणस्य अनन्तरम् एतयोः कलहः न भवेत् अतः मरणात् पूर्वम् एव गृहक्षेत्रादीनां विभाग वरं विभागः वरम् एतयोः जीवनं भाविनि काले उत्तमं भवेत् इति अतः कश्चन वृद्धः मेन् लीव् उभौ अस्ति किं भगिनि तस्य उभौ पुत्रौ इत्युक्ते पुत्रद्वयं टु सन्स् इति हा वृद्धः अत्र चित्रे पश्यतु वृद्धः अस्ति टु सन्स्वौ पुत्रौ द्वौ पुत्रः अस्ति सो टु सन्स् अस्ति पुत्रदिनं श्रमं कुर्वन् सः पुत्राभ्यां सः सुखेन जीवति स्म सो यु वास् लिविङ्ग् नैस्लि वित् दि चिल्ड्रन् विशालकृषिभूमि इत्युक्ते हेपिलि वित् दि चिल्ड्रन् योग्यम् अतः कदाचित् सः निद्रा स्लीपिङ्ग् सिंकिङ्ग् परम् अहम् अधिक ऐ वोण्ट् बि लिविङ्ग् फार् अ लाङ्ग् टैम् आम् आम् अधिककालं न जीविष्यामि नितराम् अस्वस्थः इत्युक्ते सफरिङ्ग् फ्रोम् इल् हेल्त् तस्य स्वास्थ्य सम्यक् न आसीत् अतः तत्र वृद्धापकाले सः चिन्तितवान् अहम् अधिककालं न जीविष्यामि मम समीपे अधिकसमयः नास्ति इति तस्य चिन्तनम् भगिनी अग्रिमे तस्य पुत्रो तयोः पुत्रयो एषः आलसः उपरः च श्री श्रमजीवी अलसः खलु नो दत्त सत्यं कार्यस्य कृते न उद्युक्तः सः अलसा च श्रमजीवी सो जीवनं श्रममस्ति श्रमकर इत्युक्ते श्रमं करोति एकम् एकः पुत्रः तत्र श्रमजीवी इति इत्युक्ते श्रम श्रम कर... श्रमकारणात् सः उद्युक्तः परन्तु अत्र द्वितीयः पुत्रः अलसः न इच्छा अलस्य पुत्रयो एतं स्वभावं ज्ञातवान् सो हि नो सबोट् द नेचर् आफ् सन्स् करेक्ट् सत्यं वृद्धः अचिन्तयत् हि वा फिङ्किङ्ग् एतयोः कलहः न भवेत् इत्युक्ते कलहः आन् वाट् बेसिस् कलह तत्र भूमौ विषयकः भूमिः अस्ति न स्थावरजङ्गम यत्किमपि अस्ति तस्य विषयकः कलहः न भवेत् अतः मरणात् पूर्वं बिफोर् इडै गृहक्षेत्रादीनं विभाग वरम् अशुद् थिङ्ग्स् बिफोर् इडै डेफिनेट्लि सत्यं देर् विल् नाट् वोन् बि एन कालः सत्यम् एतयोः जीवनं भाविनी काले उत्तमं भवेत् भविष्यत्काले द्वयोः जीवनम् उत्तमम् भवेत् इति पितुः चिन्तनम् कलह यदा भविष्यति चेत् तत्र जीवने तत् स्वास्थ्यं न लभ्यते मनस्स्वास्थ्यमपि अपगच्छति तदा मम मरणात् पूर्वम् एव अहं विभाजनम् करोमि तेन भविष्यत्काले किमपि चिन्ता न भवेत् इति वृद्धः चिन्तितवान् आगे। आगे। तमा, आगे। आगे। आगे <coughs> हा भगिनि अस्तु उत्तमम् उत्तममस्ति धन्यवादः भगिनि धन्यवादः अग्रिमे विना भगिनी पठति अतः सः क्षेत्रस्य तत् आरभ्य आं भगिनी पठामि अतः सः क्षेत्रस्य विभागम् अकरोत् स विभागक्रमः पुत्रयोः सन्तोषाय जातः निमिषं भगिनि अतः वृद्धः तौ स्वसमीपम् आहूय जीवनम् कथं भवेत् इत्येतम् विषयं अधिकृत्य यथाशक्ति बोधनम् कृतवान् छायायाम् चैव गन्तव्यम् अगन्तव्यम् तथैव च मिष्टान्नं मिष्टान्नं भक्ष ये भक्षये नित्यं ततो लक्ष्मीकृपा भवेत् इत्येतं श्लोकं बोधयित्वा एतस्य अर्थम् अवगत्य तदनुगुणं जीवनं क्रियताम् इति उक्त्वा अचिरात् एव प्राणैः वियुक्तः अभवत् वदतु अधुना किम् अभवत् तौ तौ युवकयोः सः आहूय जीवनं कथं भवेत् इति बोधनं कृतवान् तस्मात् प्राक् सः विभाजनं कृतवान् खलु सम्पत्तेः विभाजनं कृत्वा गृहस्य वा क्षेत्रस्य सर्वं विभागं तु कृतवान् सः कृतवान् पुत्रयोः सन्तोषाय जातः इत्युक्ते मनसि तेषाम् आनन्दं तत् प्रापर्टि डिविजन् अभवत् इति वदामः खलु स्वसमीपम् आहूय जीवनं कथं भवेत् कथं भवेत् इति कथं भवेत् इति विषयम् अधिकृत्य यथाशक्ति बोधनं कृतवान् जीवनं कथं करिष्यामः करिष्येति इति बोधनं कृतवान् छायायां चैव गन्तव्यम् आगन्तव्यं तथैव च छायायाम् छाया इत्युक्ते किं भगिनी छाया शाडो शाडोया अधुना पश्यतु कथायाः कथायाः साररूपेण अत्र एव स सार अत्र एव वर्तते सः किम् उपदिशति छायायां च एव गन्तव्यम् आगन्तव्यं तथा एव च तथैव च भवन्त अधुना भवन्त इत्युक्ते तत्र भवान् भवन्तौ इति आगच्छति भवन्तौ छायायां गमनं करोतु छायायाम् एव आगमनं करोतु पश्यन्तु छायायां गच्छतु गन्तव्ययाम् एव आगन्तव्यम् तस्य बोधः कः अनन्तरं पश्यामः तत्र एव कथायाः सार अस्ति तत्र रूपं तत्रैव वर्तते <laughs> उपदेश किम् उपदेशं गो इन् शाडो रिटर्न् इन् शारो छायां च एव गन्तव्यम् आगन्तव्यं तथैव च द्वितीया पङ्क्ति का पठतु भगिनी मिष्टान्नं मिष्टान्नं भक्षये नित्यं ततो लक्ष्मीकृपा भवेत् मृत्ता इत्युक्ते बहूनि विधानि मधुरा मधुराणि स्विट्स् इति ओके तत्र मिष्टान्नं भक्षयेत् नित्यं तकारस्य नकार भवति हा अत्र मिष्टान्नं भक्षयेत् नित्यं नित्यं भक् मिष्टान्नस्य भक्षणम् एतत् मधुराणि सर्वे मधुराणि स्वीकृत्य स्विट् स्वीट् स्वीट् इति पक्वान्नम् इति खादतु खादतु ततो कृपा कृपा कदा भक्षथ तीप भवी भव छाया गंतव्य छायागत मिष्टा भक्ष तपदेश वाक्य त्लोक श्लोक किसी छाया गायागत मिष्टा भक्षयेत् इति भक्ष भोजनस्य कृते प्रतिदिनं मिष्टान्नं भक्षयतु छायायां गच्छतु छायायाम् अगच्छतु इति तदा तस्य सूचना अधुना अधुना हा अग्रिमे पठतु इत्येतम् इत्येतं श्लोकं बोधयित्वा एतस्य अर्थं अवगत्य तदनुगुणं जीवनं क्रियताम् इति उक्त्वा अचिरात् एव प्राणैः वियुक्तः अभवत् mm. mm -hmm. अधुना श्लोकः तु श्लोक सः उक्तवान् आसीत् श्लोकः कः mm -hmm. एतत्सम् अधुना mm -hmm. अर्थम् अवगत्य तदनुगुणं तत् अनुगुणम् अर्थम् mm -hmm. अर्थस्य बोधना नाम किं यथा चिन्तनं तथा फलम् अर्थ तस्मिन् अर्थः कः श्लोके अर्थः कः तत् अवग अवग अवस् अवगमनं अवग भवेत् अवगत्य एव तदनुगुण तदनुसरेण जीवनं क्रियताम् श्लोकः तु मया उक्तः अधुना अर्थ अर्थबोधस्य दायित्वं भवन्तौ हा भवन्तौ अर्थबोधिस्य दायित्वं मम न अर्थबोधं भव भवतां कृते एव तत् कथं कः अर्थः इति अचिरात् सः प्राणत्यागं प्राणैः वियुक्तः अभवत् इत्युक्ते तत्र तस्य मरणं दिवङ्गतः सः अधुना अधुना किम् अभवत् पश्यामः पितुः पितुः विरहं प्राप्तवन्तौ तौ उभौ अपि सहोदरौ किङ्कर्तव्यौ सन्तौ कानिच दिनानि व्यापितवन्तौ अत्र यत् वयं पठितवन्तौ अद्य दिने प्र न्तौ प्राप्तवन्तः अस्तु खलु यापितवान् यापितवन्तौ यापितवन्तः हा सर्वे उक्तवतु प्रत्ययान्तरूपाणि या प्रापणे इति धातु यापितवन्तौ प्राप्त हा द्वितीयान्त क्षम्यतां द्विवचनान्तरूपाणि वीरः प्राप्तवन्तौ तौ उभौ अपि सह दरौ सर्वेषु स्थलेषु तत्र द्विवचनान्तव्यतामूढौ किं कर्तव्यतामूढौ इत्युक्ते किं भगिनी करिष्यामः इति न जान सम्यक् <laughs> एष एता एतादृशी स्थितिः कस्य अभवत् महाभारतकाले किं कर्तव्यमूढः कः आएजुना हा, आएजुना हा। आएजुना हा। आ, युद्धप्रसङ्गे किं करोमि कथम् अहं योचस्यामिता न जाने मूढ इत्युक्ते मूढ मूह दातु मोहवैचित्ये तत्र भ्रमितः मानसः हा तत्र मनसि भ्रमः इति मूढः अतः तत् किं कर्तव्यतामूढौ अग्रिमे विना कार्यं स्थातुं न शक्यते खलु अतः तौ पुत्र विभज्य दत्ते क्षेत्रे प्रथमः पुत्रः अलसः सः अचिन्तयत् छायाया गन्तव्यम् आगन्तव्यम् विना कार्यं कथं तत्र सर्वे दु, तत तु दु दुःख दुःखहरणमपि भवेत् तत् कार्यं तु करणीयं कार्यं कर्त्य विना कार्यं तु तथमेव तिष्ठामि वा न तत् कार्यस्य आरम्भं कुर्मः पित, पिता विभज्य दत्ते क्षेत्रे कृषिम् आरब्धः आरब्धवन्तौ अत्रापि द्विवचनान्त अलसः अधुना अलसस्य मनः अलसस्य मनसि किम् छायायां गन्तव्यं छायायाम् आगन्तव्यम् इत्युक्ते पश्यामः अग्रिमे पृष्ठे अस्तु धन्यवादः भगिनि एतावत्पर्यन्तं स्पष्टम् धन्यवादः अग्रे स धन्यवादः भगिनी अधुना पितुः उपदेशः किं छायायां गन्तव्यं छायायाम् आगन्तव्यम् अगरी में भारत महोदय पटति वा भगिनी पिता उपदिष्ट अस्त अत मतपे श्रर्णीय ठत ूः उपदेशं छायायां गन्तव्यं छायायाम् आगन्तव्यम् अतः अलसः किं चिन्तितवान् अत्र भारतमहोदय um, आतपे आतपे इत्युक्ते um, um, um, uh, समये न आतपे इत्युक्ते सन हीट, ड्यूरिङ्ग् हीट इति श्रमः सर्वथा न करणीयः पिता पितुः वचनमस्ति खलु पितुः उपदेशमस्ति छायायां च चा गन्तव्यं छाया छायायां च चा आगन्तव्यम् mm -hmm. आतपे श्रमः न करोमि इति mm -hmm. अलसस्य चिन्तनम् yeah. अस्तु uh, अनन्तरम् अनन्तरं सः कृषिकार्यं कर, कर्मकाराकाराधीनं कृतवान् कर्मकर आधीनं कर्मकर कर्म कर अधीनम् कर, इत्युक्ते वर्कर्स, अधीनम् इत्युक्ते स्वयं किमपि न कृतवान् कर्मकर ये जनाः सन्ति कार्यस्य कृते तेषाम् अधिनं कार्यं कृतवान् हा क्षेत्रं प्रति गमना गमनसमये छाया भवेत् खलु अतः गृहात् क्षेत्रपर्यन्तं तेन वितानः कारितः वितान इत्युक्ते षेड् छाया भवेत। पितुः उपदेशानुसारं तत्र छायायां गन्तव्यं छायायाम् आगन्तव्यं तत्र गृहात् क्षेत्रपर्यन्तं वितानः कारितः तत्र इति, तत आतपे कार्यं न भवेत् इति गृहे गृहे प्रतिदिनं मधुरपक्ष्याणि मधुरपक्ष्याणि खादित्वा मुखेन mm -hmm. निन्द्रां करोति स्म mm -hmm. mm -hmm. सूर्यास् सूर्यास्तान् सूर्यास् अनन्तरम् mm -hmm. एव उत्थाय ग्रामे व्यर्थतया अटति स्म इत्युक्ते किं गृहे प्रतिदिनं मधुरपक्ष्याणि खादित्वा Hmm. सुख सुखेन निन्द्रा करोति स्म hmm. गृहे प्रतिदिनं मधु खादित्वा च सुखेन निन्द्रा करोति स्म मधुर मधुरखाद् मधुराणि पक्वानानि आनीतव्यानि तेषां ग्रहणं करणीयम् अनन्तरं निन्द्रां करणीयम् अनन्तरं सूर्यास्तानन्तरमेव उत्थाय ग्रामे व्यर्थतया फार् नो रीज़न् अटति अटति स्म भर भ्रमति भ्रमति स्म इत्युक्ते अत्र तत्र भ्रमणं करणीयं मधुरं खादनीयं छायायाम् आगन्तव्यं छायायाम् आगन्तव्यम् अत्र गृहे एव दि, प्रतिदिनं दिने किमपि कार्यमेव न करणीयं पितुः इति तस्य चिन्तनम् सूर्यास्त यदा छाया आगछति त्यर्थत छाया अंधकार जना कार्य कस्व्य अटन करीय अटति स्म अदुना अग्रिमे विवाह अनमें गह अन अपि सः कृषिविषये अवधानं न दत्तवान् mm -hmm. तस्मात् अल्पे एव काले निर्धनता निर्धनता mm -hmm. प्राप्ता तेन mm -hmm. इत्युक्ते किं गच्छता कालेन गच्छता कालेन तस्य विवाहः अपि जातः गच्छता कालेन इत्युक्ते एज् टैम् गोज़् है विवाहः अपि तत्र विवाहः तस्य विवाह अभवत् अनन्तरमपि कृषिविषये अवधानम् एव न दत्तवान् अनन्तरं कृषिकार्यं कृतवान् वा विवाहानन्तरम् एव न दत्तवान् तस्मात् किमभवत् अल्प अल्पे एव काले किम् अभवत् आम् धनस्य अपगमनम् निर्धनता धनम् एव तस्य समीपे न अतिष्ठत् इति निर्धनता प्राप्ता तेन पश्यतु दिनक्रमम् कथमस्ति दिनक्रमम् क्षेत्रपर्यन्तम् वितानः कर्मकराधीनं कृषिकार्यम् प्रतिदिनं मधुरं खादनीयं प्रतिदिनं सुखेन दिने निद्राम् एव करणीयम् अनन्तरं सूर्यास्तानन्तरं व्यर्थतया अटनम् अत्र तत्र अटनं भ्रमणम् अत्र तत्र किमपि कार्यं नास्ति भ्रमणं केवलं तेन निर्धनता एव प्राप्ता तेन अस्तु योग्यं योग्यं धन्यवादः अग्रिमे अगस्टमहोदय पठति वा पितुः उपदेशानुगुणम् इति पितुः उपदेशानुगुणम् एव व्यावहृतं mm -hmm. चेदपि मया दरिद्रल्याः mm -hmm. mm -hmm. कृपा प्राप्ता mm -hmm. न धनलक्ष्म्याः mm. चिन्तयन् खेदम् अनुभूतवान् सः अतीवमहत्त्वपूर्णम् mm. अत्र पितुहु उपदेश अनुगुणम् एवं व्यवहृतं चेत् अपि पितुः उपदेशानुसारेण एव अहम व्यवहार करम व्यवहार पिता उपदेशनुगुण मैया दरिद्रलक्ष न तो कृपा लक्ष्मी धन सेवता गॉडेस ऑफ् वेल्थ परंतु तत्र लक्ष्मी धनलक्ष्मी अस्ति विद्यालक्ष्मी अस्ति अविद्यालक्ष्मी अस्ति अलक्ष्मी अस्ति भिन्नानि रूपाणि सन्ति दरिद्रलक्ष्मी इति एकं रूपं किम सूचयति निर्धनता सूचयति धनलक्ष्मी तत्र ऐश्वर्ययुक्त सम्पन्न ऐश्वर्येण सम्पन्न तद्धनलक्ष्मी परन्तु मया दरिद्रलक्ष्म्या एव दरिद्रलक्ष्म्याः एव कृपा प्राप्ता न धनलक्ष्म्याः इति चिन्तयन् खेदम् अनुभूतवान् सः मनसि खेदजनकपरिस्थितिः तस्य मनसि खेदः खेदभावना किम् चिन्तयति अस्तु अहम् तु पितुः उपदेशम् अनुसृत्य एव वर्तनम् कृतवान् आसम् परन्तु किमर्थम् अत्र न धनलक्ष्मी अहं प्राप्नोमि धनलक्ष्म्याः कृपा कृ। मया न प्राप्ता दरिद्रलक्ष्म्याः कृपा मया प्राप्ता मनसि खेद अतीव खेद अधुना द्वितीयस्य का गती पश्यामः पठतु महोदय द्वितीयः तु द्वितीयः श्रमजीवी hmm. सः अचिन्तयत् hmm. च यन्तव्यम् hmm. hmm. आगन्तव्यं च इत्यास्य अर्थः सूर्योदयात् पूर्वं पूर्वं कृषिक्षेत्रं hmm. गत्वा hmm. सायं सूर्य न्तरम् एव गृहं प्रति आगन्तव्यम् इति hmm. प्रतिदिनं मिष्ट मिष्ट आनं भक्षणीयम् hmm. इत्याश्य तात्पर्यं श्रमं कृत्वा भोक्तव्यम् इति एव hmm. अतीव महत्त्वं सर्वं श्रम पुत्र हा श्रमजीवीः पुत्रद्वयम् उभौ पुत्रौ पुत्रद्वयम् एकः अलसः एकः श्रमजीवी कार्यस्य कृते उद्युक्तः एकः पुत्रः सः किं चिन्तितवान् पितुः वचनानुसारेण छायायाम् गन्तव्यम् छायायाम् आगन्तव्यम् इत्युक्ते छाया छाया कदा भवति सूर्योदयात् प्राक् सूर्यो सूर्यास्तानन्तरम् ओके okay, बिफोर् सन्रैस् आफ्टर् सन्सेट् तत्र छाया अस्ति इत्युक्ते अहम् सूर्योदयात् प्राक् सूर्योदयात् पूर्वं कृषिक्षेत्रम् गच्छामि कार्यस्य कृते कृषिकार्यस्य कृते गृहतः सूर्योदयात् प्राक् गमनम् करोमि दिने पूर्णतः पूर्णरूपेण दिने कृषिकार्यम् करोमि कृषिक्षेत्रम् तत्र एव तिष्ठामि कृषिक्षेत्रे तिष्ठामि सूर्यास्तपर्यन्तम् तत्र कार्यम् करोमि सूर्यास्तानन्तरम् गृहम् प्रति आगच्छामि प्रतिदिनम् मिष्ठान्नम् भक्षणीयम् इत्युक्ते श्रमं कृत्वा यत्किमपि वयं प्राप्नुमः यतो हि मधुराणि खाद्यानि इति न परन्तु दिन प्रतिदिनं श्रमं कृत्वा यत्किमपि अस्माभिः लभ्यते तत् मिष्ठान्नमेव तदपि श्रमं कृत्वा एव भोक्तव्यं कार्यं कृत्वा यदि अहं किमपि खादनं करोमि रात्रौ परिवारसः परिवारेण सह यदा किमपि अहम् खादामि तत् मिष्टान्नवत् भवति खलु श्रमानन्तरम् सेवितम् अन्नम् मिष्टम् एव भवति श्रमानन्तरम् यत् अन्नम् वयम् खाद्य खादामः तत् मिष्टान्नवत् एव अस्ति इति तस्य चिन्तनम् पर्याप्तम् इति योग्यमस्ति एतावत्पर्यन्तम् स्पष्टमस्ति वा सर्वेषाम् अस्तु अग्रिमे राधा भगिनी पठतु एतदनुगुणं धन्यवादः महोदय एतद्गुण एतत् एतद्नुगुणम् एव सः जीवनम् आरब्धवान् तस्मात् तेन अल्पे एव काले प्रभूतं धनं प्राप्तम् पत्नी परिणीता तेन तस्य दारि दारिद्र्यम् अपगतम् hmm. लक्ष्म्याः कृपा hmm. पित्रा बोधिता नीतिः एका एव उभौ अपि पुत्रौ स्वमत्यानुगुणम् तस्य अर्थम् अवगतवन्तौ hmm. तदनुगुणम् एव फलं प्राप्तं ताभ्याम् यः उत्तमं चिन्तनं करोति सः उत्तम उत्तममेव फलं प्राप्नोति hmm. hmm. hmm. uh, द्वितीयपुत्रः uh, uh, श्रमं uh, कृत्वा तस्मात् जीवने आ, अल्पकाले अपि धनं प्राप्नुवन्तः इत्युक्ते धनम अधिकं धनम् अधिकं धनम् अधिकं धनं ह्यूज् अमौण्ट् आफ् मनी इति वक्तुं शक्नुमः okay. प्रभूतं धनि ह्यूज् अमौण्ट् आफ़् okay. तस्य गुणवती पत्नी अपि आसीत् तस्य तत्कारणं तस्य दारिद्रं गतवन्तः लक्ष्म्या कृपा तस्य प्राप्नोति अत्र गुणवती इत्युक्ते भगिनी प्रत्ययः जानाति वा गुणवती तवतु अस्ति न मतुप् इति अस्ति हा मतुप् इत्युक्ते यस्मिन् अस्ति वा यस्य अस्ति यस्मिन् गुणाः सन्ति त सः गुणवान् गुणवान् अनन्तरं धनवान् इति अस्ति गुणवान् धनवान् गुणवान् पुल्लिङ्गी गुणवती स्त्रीलिङ्गी धनवान् पुल्लिङ्गी धनवती स्त्रीलिङ्गी इत्युक्ते धनयुक्तः गुणयुक्तः मतुप्रत्ययुप्रत्ययः लक्ष्म्या वा तेन प्राप्ता सारी लक्ष्म्याः कृपा तेन प्राप्ता इत्युक्ते न अलक्ष्म्याः कृपा वा न अविद्यालक्ष्म्याः कृपा लक्ष्म्याः कृपा तेन प्राप्ता पित्रा बोधति ते द्वितीयपुत्र सम्यक् पालयति उभौ पुत्रौ तस्य मतानुगुणौ तस्य अर्थं ते अवगतवन्तौ अत्रापि पश्यन्तु स्वमत्यनुगुणम् इत्युक्ते स्वमति मति अनुगुणम् मति इत्युक्ते तत्र बुद्धि मति इत्युक्ते तत्र शब्दानां पश्यन्तु अत्र शब्दः अस्माकं पुरतः परन्तु अस्माकं अवलोकनं वा तत्र अवगमनं कथं भवति मत्यानुसारेण मम मत्यानुसारेण एव मम अवगमनं भवेत् हा तत्र अलसः तस्य मति कीदृशी मति सम्यक् आसीत् वा न मनसि सः आलस्ययुक्त तस्य मति तत् अवगुणं तथैव अभवत् अर्थस्य अवगमनं तथैव परन्तु कार्यस्य कृते उद्युक्तः कार्यशीलः पुत्रः तस्य मतिः कीदृशी तस्य मतिम् अनुसृत्य अर्थबोधः उभौ अपि पुत्रौ स्वमत्यनुगुणम् तस्य अर्थम् अवगतवन्तौ प्रिमं वाक्यं किमस्ति तद्गुणं तदनुगुणं तद्गुणं तस्य फलं त्यान् प्राप्तवन्तौ उभौ आलस्य आलक्ष्मी आल अभवत् दरिद्रलक्ष्मी अभवत् श्रमजीवी प्रभूतं धनं प्राप्तवान् अत्रापि पश्यतु तदनुगुणं तत् अनुगुणम् अत्रापि अनुयुक्ते भगिनी तत् अनुयायी इति वदामः भवति नेता गच्छति Uh, uh, पृष्ठतः अनुयायी अनुयायी इत्युक्ते अनु इत्युक्ते फालो इति okay. अनुकरणम् अनुकरणम् इति अस्ति इत्युक्ते इमिटेट् करणीयम् इति अस्ति खलु तत् अनुगुणम् इत्युक्ते तत hmm. अनु यथा अस्माकं चिन्तनं यथा मति अनुगुणम् इति वट् इस् फालोयिङ्ग् फालोड् अकोर्डिङ्ग्लि यथा अस्माकं चिन्तनं तद् अनुगुणं फलम् फलम् आम् अतः तत् अनु इति उपसर्गस्य योजना दृश्यते अत्र एवं फलं प्राप्तं ताभ्यां आम् यः उत्तमं चिन्तनं करोति सः उत्तमेव फलं प्राप्नोति यस्य चिन्तनम् उत्तमम् अस्ति तस्य फलमे एवम् उत्तमम् अस्ति न उत्तमं चिन्तयति तर्हि फलम् अपि न प्राप्नुवन्ति सम्यक् अतः कथायाः नाम किं यथा चिन्तनं तथा फलम् चिन्तनं यदा सम्यक् भवेत् तदा एव फलप्राप्ति तादृशी फलप्राप्ति एवं खलु यथा मति यथा चिन्तनं तथा फलप्राप्ति इति अस्तु धन्यवादाः हा वदन्तु सर्वे एकमेकं एकम कथायाः विषये श्यामला भगिनी रमा भगिनी वदतु श्यामला भगिनी किं किं किमपि वयं चिन्तयामः सद्विषये वयं स्मरामः अतः एव तत् एव फलम् अनुभवति Hmm. इत्युक्ते अस्माकं पुरतः शब्दाः सन्ति परन्तु मत्यानुसारेण अस्माकं चिन्तनं भवेत् अतः शुद्धमती इति आवश्यकी एवं खलु योग्यं खलु शुद्धमती शुद्धचिन्तनं शुद्धफलम् इति अस्ति सम्यक् शुद्धचिन्तनम् अस्ति चेत् शुद्धफलं शुद्ध भवेत् आं योग्यम् रमा भगिनी वदति वा गीताभगिनी रमा भगिनी भारतमहोदय वीणाभगिनी राधा एकवारं वदन्तु वाक्यद्वयं वाक्यत्रयं चिन्तनं अहं प्रयासं कर्तुं चेत् फलं प्राप्नोमि आमां क्रमस्य फलं भवति हा श्रमकारणात् एव फलप्राप्ति श्रमं न करणीयमेवं तथैव वयं तिष्ठामः चेत् फलं न प्राप्यते सत्यं योग्यं योग्यं चिन्तनं धन्यवादः अन्यभारतमहोदय वदति आम् आं वदतु सुखेन सुखप्राप्तेः कृते श्रम आवश्यक श्रमस्य आवश्यकता तदा एव सुखप्राप्ति सत्यं योग्यं भरतमहोदय राधाभगिनी विना भगिनी धन्यवाद राम राधाभगिनी रमा भगिनी विना भगिनी वदतु श्रमेण कार्यं कृत्वा एव सफलं भवेत् सफलताम् प्राप्तिम बहु सम्यक् तथा सः तु प्राप्तवान् पितुः तत् यद् विभाजनं पित्रा कृता कृतं तेन सः तु प्राप्तवान् बहुकिमपि सह प्राप्तवान् आसीत् परन्तु श्रमेण तस्य संवर्धनं भवेत् वा इतोपि वर्धनं भवेत् इति um. तस्य चिन्तनमेव न आसीत् um. अतः नष्टता सर्व आं yeah. yeah. योग्यं बहु सम्यक् वीणा yeah. भगिनी रमा भगिनी वदति वा भगिनी ऐकिङ्ग् वै डिड् नाट् द यङ्गर् ब्रदर् हेल्प्स्डि नो परन्तु सम्यक् चिन्तनम् एतादृशं चिन्तनं भवेत् एव योग्यं बहु सम्यक् <laughs> योग्यं शृणोमि <laughs> बीजं भगिनी बीजं बीजं चिन्तनम् एव बीजं किमपि चिन्तनं बीजं बीजं बीजतया वयं सस्यानि व्यदकिरु अदरोमपि वर्धन् वर्धते वयं प्राप्नोति एव यथा बीजं तथा फलम इति वदति खलु सत्यं सत्यं सत्यं अत्र वाट् इस् इम्पार्टेण्ट् इस् कदा कदा किं भविष्यति मतिभ्रष्टता इति बुद्धिभ्रष्ट यस्य बुद्धिभ्रष्टता इति स्थिति तत् अन्यैः न श्रूयते एव तत् इत्युक्ते अन्य कोऽपि आगच्छति बोधं ददाति तदपि मतिभ्रष्टमनुष्य वा बुद्धिभ्रष्टः मनुष्य श्रोतुं न उत्सुकः एव इति अस्ति सत्यं भगिनि अस्तु बहु सम्यक् अम्बिकापतिमहोदय नमो नमः भवान् श्रोतुं शक्नोति न न चिन्तावस्तु कथमस्ति भवान् अधुनात्तमं कुशलम् अस्तु अस्तु अधुना भवान् एव शान्तिमन्त्रेण समापयति वा अहम् अहं वदामि आमां वदतु सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाद् भवेत् ॐ शान्ति शान्तिशान्तिः हरिः ओम् तत्सद् श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादः धन्यवादाः सर्वेषां धन्यवादाः पुनर्मिलामः पुनर्मिलामः